संहितायाञ्च सर्वेषां स्थितस्योपस्थितस्य च विपदस्य धर्मस्य क्रमधर्मस्य पारगः गाथा सामानुधर्मज्ञः साम्नां परमवल्गुणान् आत्मना सर्वमौक्तिभ्यः कृतिमान् कृत्यवित्तथा योक्ता धर्मे बहुविधे अर्थनिर्वचनैनित्यं संशयच्छिदसंशयः प्रकृत्या धर्मकुशलो नानाधर्मविशारदः लोपेनागमधर्मेण सङ्क्रमेण च वृत्तिषु एकशब्दांश्च नानार्थानेकार्थांश्च पृथक् श्रुतीन् पृथगार्थाभिधानाश्च प्रयोगाणामपेक्षिता प्रमाणभूतो लोकस्य सर्वाधिकरणेषु च सर्ववर्णविकारेषु नित्यं सकलपूजितः स्वरे स्वरे च विविधे वृत्तेषु विविधेषु च समस्थानेषु सर्वेषु समां धातुषु उद्देश्यानां समाख्यातः सर्वमाख्यातुमितिषन् अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् कालधर्मेण निर्दिष्टं यथार्थं च विचारयन्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 अभेदतश्च बहुशो बहुशश्चाभिभेदतः वचनानां च विविधानादेशांश्च समीक्षिता नानार्थकुशलस्तत्र तद्धितेषु च सर्वशः परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः प्रत्ययाश्च प्रतिधातुकं पञ्चचाक्षरजातानि स्वरसंज्ञानियानि